अथ सप्ततितमः सर्गः तौ तु दृष्ट्वा भ्रातरौ रामलक्ष्मणौ बाहुपाश परिक्षिप्तौ कबन्धो वाक्यमब्रवीत् तिष्ठतः किम् दृष्ट्वा क्षुधार्थम् क्षत्रियर्षभौ आहारार्थम् तु सन्दिष्टौ दैवे रहत चेतनौ तच्छ्रुत्वा लक्ष्मणो वाक्यम् प्राप्तकालम्भितम् तदा समापन्नो विक्रमे कृतनिश्चयः त्वाञ्च माञ्च पुरा पूर्णमादत्ते राक्षसाधमः तस्मादसिभ्यामस्याशु बाहू छिन्दावहे गुरु भीषणोऽयम् महाकायो राक्षसो भुज विक्रमः लोकम् कृत्वा ह्यावाम् हन्तुमिहेच्छति निश्चेष्टानाम् वधो राजन् कुत्सितो जगती क्रतुमध्योपनीतानाम् पशूनामिव राघव एतत् सञ्जल्पितम् श्रुत्वा तयोः क्रुद्धस्तु राक्षसः विदार्यास्यम् ततो रौद्रम् तौ भक्षयितुमारभत ततस्तौ देशकालज्ञौ खड्गाभ्यामेव राघवौ अच्छिन्दन्ताम् सुसम्भृष्टौ बाहू तस्याम् स दक्षिणो दक्षिणम् बाहुमसक्तमसि ततः चिच्छेदरामो वेगेन सव्यम् वीरस्तु लक्ष्मणः सपपातमहाबाहुश्चिन्नबाहुर्महास्वनः खञ्च गाञ्च दिशश्चैव नादयञ्जलदो यथा सनिकृत्तौ भुजौ दृष्ट्वा शोणितौघपरिप्लुतः दीनः पप्रच्छतौ वीरौ कौयुवामिति दानवः इति तस्य ब्रुवाणस्य लक्ष्मणः शुभलक्ष्णः शशंसतस्य काकुत्स्थम् कबन्धस्य महाबलः अयमिक्ष्वाकुदायादो रामो नाम जनैः श्रुतः तस्यैवावरजम् विद्धिभ्रातरम् माम् च लक्ष्मणम् मात्राप्रतिहते राज्ये रामः वनम् मया सह च रक्षसापहृता भार्यायामिच्छन्ता विहागतौ त्वम् तु को वा किमर्थम् एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरम् वचः दिष्ट्या चे मे युवाभ्याम् बाहुबन्धनौ विरूपम् यच्छ मे रूपम् प्राप्तम् ह्यविनयाद्यथा तन्मे शृणु नरव्याघ्रतत्वतः शंसतस्तव इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सप्ततितमः सर्गः